सद्यश्चिद्यशवसा पञ्चकृष्टीः सूर्य इव ज्योतिषापस्तताना सहस्रसा शतसा अस्य रं चिद्यशवसा पञ्चकृष्टी सूर्या इव ज्योतिषापस्तताना सहस्रसा शतसा अस्य रं ह्यर्मस्मा वरन्दे युवतिन्न शर्याम् सद्यश्चिद्य त्रिसूर्या इव ज्योतिषापस्तताना सहस्रसा शतसा अस्य रं ह्यर्मस्मा वरन्दे युवतिन्न